श्रीहरये नमः अथ नवमोऽध्यायः श्रीशुक उवाच ते न्यून्यतोऽसुराः पात्रं हरन्त त्यक्तसौहृदाः क्षिपन्तो दस्योधर्माण अहो अस्या नवं वयः इति ते तामभित्रुत्य पप्रुचुर्जातहृश्चयाः का त्वं कञ्जबलासाक्षी कुतो वा चिकीर्षसे कस्यासि वा मोरो मनन्तीवमनांस्ति नः न वयं त्वामरैर्दैत्यै सिद्धकन्धर्वचारणैः नास्पृष्टं पूर्वाम् जानीमो लोकेशश्च कुतो नृपिः नूनं त्वं विधिना शुभ्रुः प्रेषितासि शरीरिणा सर्वेन्द्रियमनः प्रीतिम् विधातुं सगृणेन किं सा त्वं न स्पर्धमानाना एकवस्तुनि मानि ज्ञातीनां बद्धवैराणां संविधस्व सुमध्य मे वयं कश्यपदा नैव भेदो भवेत, इत्युपा भवेत् इत्युपामन्त्रिधो दैत्यैर् मायायोक्षिद्वपुर्हरिः प्रहस्य रुचिरापाङ्गैर्निरीक्षन्धम् अब्रवीत् श्रीभगवानुवाचा कथं कश्यपधाया धाः पुंश्चल्यामयि संहताः विश्वासं पण्डितो जातो कामिनीषु न यातिः शालावृकाणां स्त्रीणां च स्वैरिणीनां सुरद्विषः सख्यान्याहु अनित्यानि नूत्नं नूत्नं विचिन्वता श्रीशुकौ वाच इति ते श्वेलितैस्तस्यास्वस्तमनसोऽसुराः जघसुर्भावगम्भीरं धतुश्चामृतभाजनं ततो गृहीत्वा मृतभाजनं हरीः भाषगीषत् मेतसो यद्यभ्युपेतं क्व च साध्वसाधो वा कृतं मय वो विभजे सुतामिमा इत्यभिव्याहृतं तस्या आकर्ण्य असुरभुङ्गवाः अप्रमाणविदस्तस्यास्तत्ततेति अन्वमं सता अतो चः विशानलम् दत्वा गोभिप्रबोधेभ्य कृतस्पस्त्ययनाद्विजे हे यतोपजोषम् वासांसि परिधाय तानि ते प्राविशन् सर्वे प्राक् अभिभूषिताः प्राङ्मुखेषु उपविष्टेषु सुरेषु दितिजेषु च धूपा मोदितशालायाम् ज्योष्ठायां माल्यदीपकैः तस्यां नरेन्द्रकर भोरुवुसद्दुकूलश्रोणीतटालसगतिर्मदविक्वलाक्षे सा कूजती कनकनूपुरसिञ्चिदेन कुम्भस्तनिकलसपाणिरता विवेश तां श्रीसखीं कनककुण्डलचारुकर्ण कपोलवतनां परदेवताख्यां संवीक्ष संमुहुरुत्स्मितवीक्षणेन देवासुराविगळितस्पनपट्टिकान्ताम् असुराणां सुधानं सर्पाणामिव दुर्नयं मत्वा जातिनृशंसानां न तां व्यभजत्तच्युतः कल्पयित्वा पृथक्पङ्क्तीम् उभयेक्षां जगत् पदिः तांश्चोपवेशयमासस्वेषु सवेषुश्च पङ्क्तिषो दैत्यान् गृहीतकलशो वञ्चयन्नुपसञ्चरैः दूरस्तान् पाययामास जरा मृत्युहरां तूष्णीवासन् कृतस्नेहास्त्रीविवातजुगोप्सया कस्यां कृतातिप्रणया प्रणयापायकादराः बहुमानेन चाबद्धा नो च किञ्चन देवलिङ्गप्रतिष्ठन् स्वर्भानुर्देव संसदि प्रविष्टः सोममबिब् चन्द्रार्काभ्यां च शूचितः चक्रेण सुरधारेण जगारपिबतः शिरः हरिस्तस्कबन्धस्थो सुधया प्लावितोपतत् सुरस्त्वमरतां नीतम् अजो गृहमशीक्लपद् यस्तु वैरदेहे पीतप्रायेमृते देवैर्भगवान् लोकभावनः पश्यतामसुरेन्द्राणां स्वरूपं जगृहे हरिः एवं सुरासुरगणास्तमदेशकाल हे त्वर्थकर्ममतयोऽपि फले विकल्पः तत्रामृतं सुरगणाफल मञ्जसापुर्यत्पादपङ्गजर च श्रणयात्मदैत्याह यद्युज्यते सुवसुकर्ममनोवचोभिर्देहात्मजातिषु नृभिस्तदसत्पृथक्त्वात् तैरेव क्रियते पृक्त्वात् सर्वस्य तद्भवति इति श्रीमद्भागवते महापुराणे अष्टमस्कन्दे अमृतमथननवमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराज की जय